स्वर्गं सेवेन्टीन् अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन भूरिप्रभावेण रणाभियोऽगात् प्रीतो स्पष्टोऽप्यविस्पष्टवपुप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यं रुधैर्यम् भीमे भुजा लम्बमिवारि दुर्गे वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतामस्सुभ्यः समक्षमादित्सितया परेण वध्वेव परितप्यमानः पदिं बद्धमूलमुन्मूलयिष्यं स्तरसा विपक्षं लघुप्रयत्नं निगृहीधवीर्यस्त्रिमार्गावे ग इवेश्वरेण संस्कारवत्त्वा द्रमयत्सु चेदः प्रयोगशिक्षागुणभूषणेषु जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशंसे भूयसमाधानविवृद्धतेजा नैवं पुरा युद्धमि दिव्यधावान् स निर्व वामाश्रममर्शनुन्नं विषं महानाग इवेक्षणाभ्यां तस्याः वा यास विलोलमौलेः संरम्भताम्रायदलोचनस्य निर्वापयिष्यन्निवरोषतप्तं प्रश्नापयामास मुखं निदाख क्रोधान्धकारान्तरिदोरणाय भ्रूभेदरेका सबभारतिस्रः कनोपरुद्धप्रभवाय वृष्टेः ऊर्ध्वां सुराजीजिवतिक्मलश्मिः सप्रध्वनय्याम्बुदनादिचापम् हस्तेन दिङ्नागयिवाद्रिशृङ्गम् बलानि शम्भोरिषुभिस्तदा चेदांसि चिन्ताभिरिवा शरीरः सद्वादिदेव भिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपादे वा अगोचरे वागिव ोपरे मे शक्तिः शराणां शितिकण्ठकाये उमापदिं पाण्डुसुतप्रणुन्नाः शिलीमुखानव्यथयाम्बभूवुः अभ्युद्धितस्याद्रिपदेर्निदम्बमर्कस्य पादा इव मनस्य सम्प्रीयमाणोनु बभूव तीव्रं पराक्रमं तस्य पतिर्गणानां विषाणभेदं हिमवानसह्यं वप्राणतस्येव सुरद्विपस्य तस्मै भारोद्धरणे समर्थं प्रदास्यदा बाहुमिव प्रतापम् चिरं विषेहेभिभवस्तदानीं सकारणानामपि कारणेन प्रत्याहतौ जाकृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोदि तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलिदानि तस्य दृष्टावदानाद्व्यधतेरिलोकः प्रध्वंसमे दिव्यथिता च तेजः तेजोविहीनम् विजहादिदर्पः शान्दार्शिष्यम् दीपमिव प्रकाशः तद प्रयात्यस्तमदावलेपः स जयदायाः पदवीं जिगीशोह। गन्धे न जेदु प्रमुखा गदस्य प्रदिद्वीपस्येव मदङ्गजौकः एवं प्रदिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखा विधास्यन् इयश परियाय जया वसादा रणक्रिया शंभुरुक्रमेण मुने विचित्रशुयान्य शंभदे बलौक सहात्मलाभेन सु पदद्भिर्जातिस्वभावैरिव जीवलोकः वितन्वतस्तस्य शरान्धपारम् त्रस्तानि सैन्यानि रवं निषेमुः प्रवर्षदर्शन् ददवेपधूनिक्षपाखनस्येव गवाङ्कुलानि यका साध्वस विप्लता क्षिपन्श मदिठव शशी वोषा वृतलोचना बिजगासे क्षोभेणतेनाधगणाधिपना भेदं व्यया वा कृतिरीश्वरस्य तरङ्गकम्बेन महा ह्रदानां छायामयस्येव दिनस्य कर्तुः प्रसेदिवां सं न पुरुषे विकारः आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महदां हि वृत्तिः विस्फायमाणस्य ततो भुजाभ्यां भूदानि भर्त्रा धनुरन्दकस्य भिन्ना कृतिं क्रुद्धस्य जिह्वामिव तक्षपस्य सव्याप सव्यध्वनितोऽग्रजापं पार्थ किराताधिपमाशशङ्गे पर्यायसम्पादितकर्णतालं यन्दागजं व्यालमिवापराब्धः निजग्निरेतस्य हरेषु जालैः पदन्तिवृन्तानि शिलीमुखानाम् ऊर्जस्विभिः सिन्धुमुखा गदानि यादांसि यादोभिरिवाम्बुराशेः विभेदमन्दःपदवीनिरोधम् विध्वंसन चा विदिद प्रयोग नेोकेशु कप्तचकार सेभु सोटावी प्रथमायुध से क्रोधोजेत चिन्हसीद वाहिनीकैः पेदे कृतार्थैरिवतस्य बाणैः अलङ्कृताना मृजुदागुणेन गुरूपदिष्ठं गदिमास्तिदानां सदा मिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृति बाणचिदस्ते विशिखा स्मरारे रवाङ्मुखीभूतफलापदन्तः अखण्डितं पाण्डवः सायकेभ्यः कृतस्य सद्यप्रतिकारमापुः चित्रीयमाणानदिलाखवेन प्रमाधिनस्तान् भवमार्गणानाम् दूरं तस्यादि पराक्रमे सकुलायखानदूर हंदा पुराम्भूरी हंधुरांूरी पृष्त्कवर्षं निरास नैदाक इवाम्बूमेखः अनामृषन्दक्वचिदेवमर्म प्रियैक्षीणानुप्रहिता शिवेन सुहृत्प्रयुक्दा इव नर्मवादाः शरा मुनेः प्रीतितरा अस्त्रैः समानामदिरे किणीं वा पश्यन्नि शूनामपि तस्य शक्रिं विषादवक्रव्यबलप्रमाधी स्वमाललम्बे बलमिन्दुमौलिः तपस्तपो वीर्य समुद्धतस्य पारं यासो समरार्णवस्य महेशु जखिला जिष्णोरर्कपयांसचा ऋक् स विस्रंभमताजुन सेशंगवक्पता पापीतजले सदर्शं मदङ्गजस्येव न गास्म रन्ध्रे च्युदेश तस्मिन्निषूधौ शरार्धा ध्वस्तार्थसारे सहसेवबन्धौ तत्कालमोखप्रणयप्रभेदे निर्वाच्यता कामयिवाभिमुख्यम् आकट्टयामास गदा गदाभ्यां सा वेगमग्राङ्गुलिरस्य तूणौ विधेयमार्गे मदिरुत्सुकस्य नयप्रयोगाविवगां जिगीषोः बभारशून्या कृतिरर्जुनस्तौ महेषु धी युगान्धसं शुष्कजलौ विजिह्मः पूर्वा परौ लोकयिवाम्बुराशी तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततया नुते पे स्वामापदं प्रोच्य विपत्तिमग्नं शोचन्ति सन्दोह्युपकारिपक्षम् प्रतिक्रियायै विदुरस तस्मात् कृत्रेण विश्लेषमियाय हस्तः पराङ् मुखत्वेऽपि कृतोपकारात् तूणि तदानीमुपकारिणीव सम्भावनायामधरीकृतायां पत्युः पुरस्साहसमासितव्यं तं शम्भुराक्षिप्तमहेषु जालं लोहैशरैर्मसु निस्तुतोद कृतोत्तरं तत्त्व विचारमध्ये वक्रेवदोषैर्गुरुभिर्विपक्षम् जहार चास्मादचिरेण वर्मज्वलन्मणिद्योदितः हैमलेखम् चण्डपदङ्गान् मरुदेकनीलं तडिद्वधकण्ठमिवाम्बुधस्य विकोशनिर्धौदतनोर् महासेहे फणावतश्च त्वचि विच्युतायां प्रदिद्वीपा बद्धरुषसमक्षम् नागस्य चाक्षिप्तमुखच्छदस्य विबोधितस्य ध्वनिना खनानां हरेरपेतस्य च शैलरन्ध्रात् निरस्तधूमस्य च रात्रिवाह्नेर्विना तनुत्रेण रुचिं सभेजे अचित्ततायामपि न मयुक्तामनूर्ध्वं प्राप्य तदीयकृच्रे महीं गदौ ताविशुधि तदानीं ता विववृतुश्चेदनयेव योगम् स्थिदम् विशुद्धे नभसि वसत्त्वे धाम्ना तभो वीर्यमयेन युक्तम् शस्त्राभिखादैस्तमजस्रमेशस्त्वष्टा विवस्वन्दमिवोल्लिलेख संरम्भवेगोच्छितवेदनेषु गात्रेषु बाधिर्यमुपागदेषु मुनेर्बभूव गणितेषु राश्येर्लौहस्तिरस्कार इवात्ममन्युः ततो नुपूर्वा यदवृत्तबाहुः श्रीमान् क्षरल्लोहिददिग्धदेहः आस्कन्द्यवेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिकादैः साम्यं गदेना शनिना मखो नः शशाङ्कण्डाकृतिपाण्डुरेण शम्भुं बिभित्सुर्धनुषा जखानस्तम्भं विषाणेन महानिवेभः रयेण सन्निदधे वदन्ती ोदात्मन चापयि समंदुरनेगा परे नौजसी जह्नूने कामुकर्मसु शोचनीय परच्युतार्योपचार विच्क्षिपेशूलभृदील सपत्रिदूरमदूरपाद उपोकल्याण फलोिरक्ष वीरव्रत पुण्यरणाश्रमस्पोप वास्सैयत्मा दे मुनिस्थरीशु भी शिव से तदोग्रभूमिं व्यवसाय सिद्धेः सीमानमन्यैरदि दुस्तरं सह तेजश्रियामाश्रयमुतमासिं साक्षादहङ्कारमिवाललम्बे शरानवद्यन्ननवद्यतर्मा चकारित्रं प्रविचारमार्गैः अस्तेन हस्तेन निस्त्रिशृदी साकांशुना वारिधिूर्मेण यहाम्चायाचासु सहस्ररशि तदा नाशुस्थल स्पष्ट मूर्तिर्ददृशे सभूतैः शिवप्रणुन्नेन शिली मुखेन सरुप्रदेशादपवर्जिताङ्गः ज्वलन्नसि स्तस्य पपादपाणेर्घनस्य वप्रादिव वैद्युदोऽग्निः आक्षिप्तचाप वरणेषु जालश्चिह्नोत्त मासि समृद्धेवधूदः रिक्तप्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः सखण्डनं प्राप्य परा दमर्शवान् भुजद्वितीयोऽपि विचेतुमिच्छया ससर्ज वृष्टिम् परिरुग्णपादपाम् द्रवेतरेषाम् पयसामि वाश्मनाम् नीरन्ध्रम् परिगमिदेक्षयम् पृषत्कैर्भुदानामधिपतिना शिलाविदाने उच्छ्रायस्तगित भो दिगन्धरालम् शिक्षेपक्षिदिरुहजालमिन्द्रसूनुः निःशेषं सकलिदवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभिधकषाय चित्राम् ईशानः सकुसुमफलवैर्नगैस्तैराधेने बलिमिवरङ्गदेवताभ्यः उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः गाण्ठीवी कनकशिलानिभं भुजाभ्यामा जघ्ने विषमविलोचनस्य वक्षः अभिलषद उपायं विक्रमं कीर्ति लक्ष्म्यो रसुगममरिसैन्यैरङ्गमभ्यागदस्य जनक इव शिशुत्वे सुप्रियस्यैकसूनो रविनयमपि सेखे पाण्डवस्य स्मरारिः इति श्रीभारविकृतौ किरादारजुनी महाकाव्ये सप्तश सर्ग